शरीरम् च मृतस्यैकम् समबद्धन्त पाण्डवाः विवर्जयिष्यन्ति नरा दूरादेव शमीमिमा आबद्धम् शवमत्रेति गन्धमाघ्राय पूतिकम् अशीतिशतवर्षेयम् माता न इति वादिनः कुलधर्मोऽयमस्माकम् पूर्वैराचरितोऽपि वा समासज्याथ वृक्षेऽस्मिन्नि वै आगोपालाविपालेभ्य आचक्षाणा परन्तपाः आजग्मर्नगराभ्याशम् पार्था शत्रुनिबर्हणाः जयो जयन्तो विजयो जयः सेनो जयद्बलः इति गुह्यानि नामानी चक्रे तेषां युधिष्ठिरः ततो यथा प्रतिज्ञाभिप्राविशन्नगरम् महत् अज्ञातचर्याम् वत्स्यन्तो राष्ट्रे वर्षम् त्रयोदशम्